श्रीमन्महाभारतम् आदिपर्वणि स्वयंवरपर्वणि राजपराङ्मुखीभवने षडशीत्यधिकशततमो अध्यायः वैशम्पायन उवाच तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः अस्त्रं बलं चात्मनि सर्वे समुत्पेतुरुदायुधास्ते रूपेण वीर्येण कुलेन चैव शीलेन वित्तेन च यौवनेन समिद्धदर्पामदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः कृष्णाममैवेत्यभिभाषमाणा नृपासनेभ्यः सहसोदतिष्ठन् ते क्षत्रिया रङ्गगता समेता जिगीषमाणा द्रुपदात्मजां तां चकाशिरे पर्वतराजकन्यामुमां यथा देवगणाः समेताः कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः रङ्गावतीर्णाद्रुपदात्मजार्थम् द्वेषम् प्रचकुः सुहृदोऽपि तत्र अथायुर्देवगणाविमानैरुद्रादित्या वसवोथाश्विनौश्च साध्याश्च सर्वे मरुतस्तथैव यमम् पुरस्कृत्य धनेश्वरम् दैत्यापर्णश महोरगा देवर्ष गुह्य विश्वावसुर्नादत गुख्या सहसा सरो हलायुस्तनादन वृष्यंधकाश यहां प्रेक्षास्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः दृष्ट्वा तु तान् मत्तगजेन्द्ररूपान् पञ्चाभिपद्मानिव वारणेन्द्रान् भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ शनैः शनैस्तान् प्रसमीक्ष्य रामो जनार्दनम् प्रीतमनाददर्शः अन्ये तु वीरानृपपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः व्यायच्छमानाददृशुर्नतान्वै सन्दष्टदन्तच्छदताम्रनेत्राः तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ ताम् द्रौपदीम् प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः देवर्षिगन्धर्वसमाकुलम् तत् सुपर्णनागासुरसिद्धजुष्टम् दिव्येन गन्धेन समाकुलम् दिव्यैश्च पुष्पैरवकीर्यमाणम्